श्रीहरये नमः अथ द्विपञ्चाशद्धमोऽध्यायः श्रीशुक उवाच कृष्णेन इक्ष्वागुनन्दनः तं परिक्रम्य सन्धम्य निश्चक्रामगुहामुखात् स वीक्षुल्लकान् मर्त्यान् पशून् मत्वा कलियुगं प्राप्तं जगामदिशमुत् तपः श्रद्धायुतो धीरो निस्सङ्गो मुक्तसंशयः समाधाय मनः कृष्णे प्राविसद्दन्तमाधनं भधर्याश्रममासाद्य नरनारायणालयम् सर्वद्वन्द्वसहत्सान्तस्तपसा राधयत् हरिं भगवान् पुनराव्रज पुरीं यवनवेष्टितां हत्वां निन्ये तदीयं द्वारकां धनम् नीयमाने धने गोपेर्नृभिश्च अच्युतचोदितैः आजगामजरासन्तस्त्रयोभिं सत्यनीकपः विलोक्य बेघरभसं रिपुसैन्यस्य माधवौ मनुष्यचेष्टामापन्नौ राजन्धुध्रुवतुर्धृतम् विकाय वित्तं प्रचुरं। अभीतौ भीरुभीतवत् पद्भ्यां पद्मपलासाभ्यां चेरतुर्बहुयोजनं पलायमानौ तौ धृष्ट्वा मा अन्वधावत्रथानीकै ईशयो अप्रमाणवेत् प्रधृत्यदूरं संसारान्तौ तुङ्गमारुहतां गिरिम् प्रवर्षणाख्यम् भगवान् नित्यधा यत्र वर्षति गिरौ निलीनौ आज्ञाय नादिगम्यपदम् नृप दताकगिरिमेधोपे समन्तात् अग्निमुत्सृजन् तथ उत्पत्य तरस दह्यमानतटादुभौ तसैगयो जनोत्तुङ्गान्ते फे ततो अथो भुवि स्वपुरं पुनरायात समुद्रपरिकामनृप सोऽपि ध्ता विधिमृषां मन्वानो बलकेशवौ बलमाकृष्य सुमघ मगधान्मागतो ययौ आनर्ताधिपति श्रीमान् रैवतोरेवतीं सुतां ब्रह्मणा प्राधात् भलायेति पुरोदितं भगवानपि गोविन्द उभये मे वैतर्बिम्बीक्ष्म सुतां शियो मात्रां स्वयंवरे प्रमत्यतरसा राज्ञां साल्वादींश्चैद्यपक्षगान् पश्यतां सर्वलोकानां दार्शःपुत्रः सुधामिव राजोवाच भगवान् भीष्मकसुतां रुक्मिणीं रुचिराननां राक्षसेन विधानेन उपये मयिति श्रुतं भगवन् श्रोतुमिच्छामि कृष्णस्य अमित तेजसः यथा मागधसाल्वादेन् जित्वा कन्यामुपाहर ब्रह्मन् कृष्णकथाः पुण्याम् माध्वीर्लोकमलापहाः को नु तृप्येत शृणवा श्रुतज्ञो नित्यनूतनाः श्रीशुक उवाच राजासीद्भीक्ष्मको नाम विदर्भाधिपतिर्महान् तस्य पञ्चाभवन् पुत्रा कन्यैकाचरवरान रुक्मिग्रजो रुक्मरतो रुक्मबाहुरनन्तरः रुक्मकेशो रुक्ममाले रुक्मिण्येषां स्वसा सती रूपवीर्यगुणश्रियः गृहागतैर्गीयमानास्तं मेने शत्रुसम्पतिम् िलक्षणौ धार्य रूपशीलगुणाश्रया कृष्णस्य सदृशीं भार्यां समुद्वोढुं मनोदते बन्धूनामिच्छतां धातुं कृष्णाय भगिनीं नृप कृष्णद्वे रुक्मि चैद्यम् अमन्यत तदवेत्यासिताभाङ्गी वैदर्भी दुर्म पृशम् विचिन्याप्तम् द्विजम् कञ्चेत् कृष्णाय प्राहिणोद्धृतम् द्वारकांसमभ्येत्य प्रतीकारै प्रवेशितः अपश्यत आद्यम् पुरुषमासीनं काञ्चनासने दृष्ट्वा ब्रह्मण्यदेवस्थम् अवरुह्य निजासनात् उपवेश्य अर्हयाञ्चक्रे यथात्मानं दिवौकसः तम् भुक्तवन्तं विश्रान्तम् उपगम्य सतां गतिः पाणिनाभिम् वृषन् पाधौ अव्यग्रस्तम् अपृच्छत कच्चिद्विजवरश्रेष्ठ धर्मस्ते वृद्धसम्मतः वर्तते नातिकृश्रेण सन्तुष्टमनसः संतुष्टो यर्हि वर्तेत ब्राह्मणो येन केन चेत् अहीयमानस्वाधर्मात् स ह्यस्या किल नाप्नोत्यपि सुरेश्वरः अकिञ्चनोऽपि सन्तुष्ट सेते सर्वाङ्गविज्वरः विभ्रान् स्वलाभसन्तुष्टान् साधून्भूतसुकृत्तमान् निरहङ्कारिणः शान्तान् नमस्ते शिरसा सहृत् कच्चित्त्वकुशलं ब्रह्मन् राजतो यस्य हि प्रजाः सुखं वसन्ति विषये पाल्यमाना समे प्रियः सर्वं नो भृक्य गोह्यम् चेत् किं कार्यम् करवाम ते एवं सम्पृष्टसम्प्रश्नो ब्राह्मणः परमेष्टिना लीला गृहीतदेहेन तस्मै सर्वम् अवर्णय रुक्मिन् युवाच श्रुत्वा गुणान् भुवनसुन्दर शुण्वतां ते निर्विश्य कर्णविवरेर्हरतोऽङ्गतापं रूपं दृशां दृशिमतामखिलार्थलाभं त्वयि अच्युता विसति चित्तमपत्रपं का त्वामुगुन्तमहती कुलशीलरूप विद्यावयोद्रविणदामभिरातु मल्यं धीरापतिं कुलपतिनवृणीतकन्या काले नृसिंह नरलोकमनोभिरामं <tip> तन्मे भवान् खलु व्रतपधिरङ्गजाया आत्मार्पितश्च भवतोत्र ीरभागमभिमर्सतु चैत्य आराद् गोमायुवन्मृगपतेर्बलिमम्बुजाक्षन् पूर्तेष्टधत्त नियमव्रत देव विभ्र कुर्वर्चनादिबि अलं भगवान् परेशः आरादितो यदि गदाग्रजयेत्यपाणिं ग्रघ्नातु ेन धमघोष सुधातयोन्ये शोभाविनित्य त्वमजितोद्वहने विदर्भान् गुप्तः समेत्य प्रतना बधिभिः परितः निर्मत्य चैत्यमगतेन्द्रफलं प्रसह्य मां राक्षसेन विधिनोद्वग वीर्यशुल्काम् अन्तःपुरान्तरचरीमनिहत्यबन्धून् त्वामुद्वगे कथमिति पवदां द्युपायम् पूर्वेत्युरस्तिमहती कुलदेवी यात्रा यस्यां बहिर्नववधोर्गिरिचामुपेयात् यस्या गृपङ्गज रजस्नपनं हर्ह्यं बुजाक्ष न लभेय भवत्प्रसादम् जह्यामसून् पृथक्शान् सत जन्मभेष्यत् इत्येते गुह्यसन्तोष यदुदेव मया कृताः विमृश्य यच्छात्र क्रियतां तदनन्तरम् इति श्रीमद्भागवते मखापुराणे दशमस्कन्ते उत्तरार्धे रुक्मिण्युद्ध्वाख परस्तावेद्विपञ्चाशद्धमोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमघराजकी जय